विश्वे देवांस्तथा साध्यान् छान्त्यर्थम् भरतर्षभा स्वस्ति तेस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत दिव्येभ्यश्चैव भूतेभ्यो चान्ये परिपन्थिनः वैशम्पायनुवाच एवमुक्त्वा शिशः कृष्णा विरराम ततः प्रदक्षिणम् कृत्वा भ्रातॄन्धौम्यम् च पाण्डवः प्रातिष्ठतमहाबाहु प्रगृह्यरुचिरम् धनुः तस्य मार्गादपाक्रामम् सर्वभूतानि गच्छतः युक्तस्य इन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः सोऽगच्छत्पर्वतांस्तात तपोधननिषेवितान् दिव्यम् हैमवतम् पुण्यम् देवजुष्टम् परन्तपः अगच्छत्पर्वतम् पुण्यमेकाह नैव महामनाः मनो जवगतिर्भूत्वा योगयुक्तो यथानिलः हिमवन्तमतिक्रम्य गन्धमादनमेव च